यदा श्रौषम् द्रोणमाचार्यमेकम् धृष्टद्युम्नेनाभ्यतिक्रम्य धर्मम् रथोपस्थे प्रायगतम् विशस्तम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् द्रोणिना द्वैरथस्थम् माद्रीसुतम् नकुलम् लोकमध्ये समम् युद्धे मण्डलेभ्यश्चरन्तम् तदा नाशंसे विजयाय सञ्जय यदा द्रोणे निहते द्रोणपुत्रो नारायणम् दिव्यमस्त्रम् विकुर्वन् नैषामन्तम् गतवान् पाण्डवानाम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् भीमसेनेन पीतम् रक्तम् भ्रातुर्युधि दुःशासनस्य निवारितम् नान्यतमेन भीमम् तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् कर्णमत्यन्तशूरम् हतम् पार्थेनाहवेष्व प्रधृष्यम् तस्मिन् भ्रातॄणाम् विग्रहे देवगुह्ये तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् द्रोणपुत्रम् च शूरम् दुःशासनम् कृतवर्माणमुग्रम् युधिष्ठिरम् धर्मराजम् जयन्तम् तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् निहतम् मद्रराजम् रणे शूरम् धर्मराजेन सूत सदा सङ्ग्रामे स्पर्धते यस्तु कृष्णम् तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् कलहद्यूतमूलम् मायाबलम् सौबलम् पाण्डवेन हतम् सङ्ग्रामे सह देवेन पापम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् श्रान्तमेकम् शयानम् ह्रदम् गत्वा स्तम्भयित्वा तदम्भः दुर्योधनम् विरथम् भग्नशक्तिम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् पाण्डवाम् स्तिष्ठमानान् गत्वा हृदे वासुदेवेन सार्धम् अमर्षणम् धर्शयतः सुतम् मे तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् विविधांश्चित्रमार्गान् गदायुद्धे मण्डलशश्चरन्तम् मिथ्याहतम् वासुदेवस्य बुद्ध्या तदा नाशंसे विजयाय सञ्जय यदाश्रौषम् द्रोणपुत्रादिभिस्तैर्हतान् पञ्चालान् द्रौपदेयांश्च सुप्तान् कृतम् बीभत्समयशस्यम् च कर्म तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् भीमसेनानुयातेनाश्वत्थाम्ना परमास्त्रम् प्रयुक्तम् क्रुद्धेनैशीकमवधीत्येन गर्भम् तदा नाशंसे विजयाय सञ्जय यदा श्रौषम् ब्रह्म शिरोऽर्जुनेन स्वस्तीत्युक्त्वास्त्रमस्त्रेण शान्तम् अश्वत्थाम्ना मणिरत्नम् च दत्तम् यौष् द्रोणपुत्रेण गर्भे वैराट्या वैपात्यमाने वैपातम महास्त्रन केशवो द्रोणपुत्र परशापैशाप शोच्यापौत्र तथा बंधु पितृभिर्भ्रतृच कार्यम दुष्क पांडवेय प्तम् राज्यमसपत्नम् पुनस्तैः कष्टम् युद्धे दश शेषाः श्रुता मे त्रयोऽस्माकम् पाण्डवानाम् च सप्त द्व्यूनाविंशतिराहताक्षौहिणीनाम् तस्मिन् सङ्ग्रामे भैरवे क्षत्रियाणाम् तमस्त्वतीव विस्तीर्णं मोह आविशतीव नोपल सूत मनो विह्वलवे धृतराष्ट्रोथ विलप्य बहु दुखि मूर्छि पुनराश्वस्जय वाक्यम्रवीत धृतराष्ट्र उवाच संजय गाणंस््यक्तुम्छा माचिर स्तोकम् ह्यपि न पश्यामि फलम् जीवितधारणे सौतिर्वाच तम् तथा वादिनम् दीनम् विलपन्तम् महीपतिम् निःश्वसन्तम् यथानागम् मुह्यमानम् पुनः पुनः गावल्गणिरिदम् धीमान् महार्थम् वाक्यमब्रवीत् सञ्जयौवाच श्रुतवानसि वैराजन्महोत्साहान् महाबलान् द्वैपायनस्य वदतो नारदस्य त धीमतः महत्सु च जातान् दिव्यास्त्रविदुषः धर्मेण पृथिवीम् जित्वा यज्ञैरिष्ट्वाप्तदक्षिणैः अस्मिन् लोके यशः प्राप्य ततः कालवशम् गतान् शैव्यम् महारथम् वीरम् सृञ्जयम् जयताम् वरम् सुहोत्रम् रन्ति देवम् च काक्षीवन्तमथौ क्षिजम् बाह्लीकम् दमनम् चैद्यम् शर्यातिमजितम् नलम् विश्वामित्रममित्रघ्नम् अम्बरीशम् महाबलम् मरुत्तम् मनुमिक्ष्वाकुम् गयम् भरतमेवच रामं रामम् दाशरथिम् चैव शशविन्दुम् भगीरथम् कृतवीर्यम् महाभागम् तथैव जनमेजयम् ययातिम् शुभकर्माणम् देवैर्यो याजित स्वयम् सवनाकरा इति चतुर्विंशन्नारदेन सुरर्षिणा पुत्रशोकाय पुराश्वैत्याय कीर्ति